वितद्रुर्झल्लिबभ्रू च विदूरथः वसुदेवोग्रसेनौ च सप्तैते मन्त्रिपुङ्गवाः प्रसेनदित्ययमलो राजराजगुणान्वितः को मणिर्यस्य रुक्मिं निःस्रवते बहु स त्वं सम्राड् गुणैर्युक्तः सदा भरत सत्तमा क्षत्रे सम्राजमात्मानं कर्तुमर्हसि भारता दुर्योधनं शान्तनवं द्रोणं द्रोणायनीं कृपं कर्णं च शिशुपालं चारुक्मिणं च धनुर्धरम् एकलव्यं द्रुमं श्वेतं शैवं शकुनिमेव च एता न जित्वा सङ्ग्रामे कथं शक्नोषितं कृतम् अथैते गौरवेणैव न योत्स्यन्ति न जरासन्धे जीवमाने महाबले राजसूयस्त्वया वप्तुमेषा राजन्मतिर्मम तेन रुद्धा सर्वे जित्वा न्दरे पर्वतेन्द्रस्य सिंहेनेव महाद्विपाः स हि राजा जरासन्धो यक्षुर्वसुधाधिपैः महादेवं महात्मानमुमापतिमरिन्दमा आराध्यतपसोऽग्रेण निर्जितास्तेन पार्थिवाः प्रतिज्ञायाश्च पारं स गतः स हि निर्जित्य निर्जित्य पार्थिवान् पृतनागतान् पुरमानीयबद्ध्वा चकार पुरुषव्रजं वयं चैव महाराजा जरासन्धभयात्तदा मथुरां सम्परित्यज्य गता द्वारवतीं पुरीं यदि त्वेनं महाराजा यज्ञं प्राप्तुमभीप्सी मोक्षाय जरासन्धवधाय च समारम्भो न शक्योऽयमन्यथा कुरु नन्दना राजसूयश्च कार्त्स्न्येन कर्तुमतिमतां वरा जरासन्धवधोपायश्चिन्त्य सकलं पार्थिवं बलम् इत्येषा राजन् यथा वा मन्यसेनघ गते मम चक्ष्व स्वयं निश्चित्य हेतुभिः इति श्री महाभारते महाभारभापर्वि राजरंभपर्वण कृष्णवाक्ये चतुर्दशोध्याय